ओ uh. प्रजाकामयत प्रजासृजये तिषतपोदप्यदसत्पानसृजदसोकामयत प्रजासृज ये तिषद्वितीयमदप्यदसभयागस्य सृजतसोकामयत प्रजासृजये दिस तृतीयमदप्यदस गैतं देक्षितवादमपश्यत्तमवधत्ततो वैद प्रजासृजयत्तपस्तत्त्वादेक्षितवादं वदति प्रजा एव दद्यमानसृजय यद्वै देक्षितो भेद्यम् पश्यत्यपास्माद् देक्षाक्रामीलमस्य हरव्येत्यपद्यं मनो दरिद्रम् चक्षुः सौर्यो ज्योतिषा श्रेष्ठो देक्षे मामहासे नित्याहना स्मा देक्षाभक्रामदिनाश्च नीलन्न होग्ये नियद्वै देक्षितमभिवर्षदि दिव्यापोषा ो जो बलं दीक्षान्तपोऽस्म निर्भ्यन्त्यं गतेर्बलं धत्तौ जो धत्त बलं धत्तमा मे देक्षां मातपो निर्वधिष्ठेत्याहैतदेव भद्रादभिश्वे यः बृहस्पतिः पुरगेता ते अस्मित्याः ब्रह्मवे देवानां बृहस्पतिस्त्वते सगेन पारयत्ते तमकन्मज भगजनं पृथिव्या इत्याहदेके च पृथिव्या आगच्छति योगिजते विश्वे देवायुषन्तपोर्भगित्याह जोषयन्ते यद् यतु शासन्तरम् ैष्टभोजागतो भागयति मे सोमाय ब्रोधाच्छन्दोमानागुंसाम्राज्यं गच्छति मे सोमाय ब्रोधाद्यो वे सोमगुंराजानं लोकं गमयित्वा क्रीणादिगच्छति स्वानागुं साम्राज्य छन्दागुंसि खलु वे सोमस्य राज्ञः सोमस्य ेवमभिमन्त्रगेन साम्राज्यमेवकं गमयित्वा त्रेनाधिगच्छति स्वां सा्राज्यो वेतानो नस्य प्रतिष्ठाम्ये न प्रक्षेपतिष्ठति ब्रह्मवादिनो वदन्ति न प्राश्यन्ति न जक्वत्य सक्वदानो नम् प्रतिष्ठति प्रजापदौ ेतानो न प्रस्य प्रतिष्ठाय एवं वेण प्रत्यवतिष्ठधियो वाग्भ्यः प्रतिष्ठां वेन प्रत्यवतिष्ठधि मन्येतानभिक्रम्य हो श्यामे दिवतिष्ठन्नाश्रावये देशावाग्भ्योः प्रतिष्ठाय एवं वेन प्रत्यवतिष्ठ देदभिक्रम्य जिभुजा प्रतिष्ठाया इया तस्मात् मानप्रतिष्ठदाहो भव्यम् र्यं वेदस्ववानेव भवति सृग्वा अस्य स्वं वागव्यमस्य वागव्यं वा न श्रावये स्वाधिया तस्मादन्वारभ्या श्रावेव नैति यो वेद मम प्रतिष्ठाप्यस्तोत्रमभागवाप्य प्रतिष्ठितस्वमो भवत्य प्रतिष्ठितस्तो मा प्रतिष्ठ ुक्थान्यप्रतिष्ठितो विधमानोऽ प्रतिष्ठितो धर्युर्वायुव्यम्बे सोमस्य प्रतिष्ठा च मसोस्य प्रतिष्ठा सोम स्तोमस्य स्तोममुक्ता बृहम् वा च मसम् वोन्ने यस्तोत्रमुपाकुर्या प्रत्येव सोमग्र्यस्थापयति प्रति स्तोमम् यज्ञम् वा एतत्सम्भरं जिगत्सामक्रयण्ये पदं यज्ञमुखगं हृद्धाने यरिह वृद्धाने प्राजेरे ये प्रवर्तये यस्तर्हि तेनाक्षमुख एव यज्ञमलसन्तनाप्राञ्चम्युत्पत्ते मानयन्त्यं वनागं विप्रवर्तयन्त्य सवा अस्यैष्ण्यो धीयते सोऽध्याय विधयेद्रो भो रिः पशुमायन्ति हरिहृदस्य पशुश्चपणगं हरे त्रेण भागिनं करोति यीडमानो वा आहवलीयोजमानं विकर्षन्तहवलीयापुश्रपणकं हरन्ति समेव स्यान्म्यं वागुल्याद्यमानस्य सात्मत्वा हि यरिपशोरभदानन्दश्चेताज्यश्च प्रत्या ख्यायमपद्वेक्षैव ततस्त्रायश्च त्रयपसुम्यवध्सेरणस्तान् कामयेतार्तिमार्च्य हृदि भुविषङ्गे नमो तस्मै प्रतिप्रवेदयति भगुम् अनुमन्यता इमम् पशुम् पशुपते अद्य पध्याम्यग्ने सुतस्य मध्ये अनुमन्यस्व सुयजायुजामजुष्वम् देवानाम् इदमस्तु हव्यम् प्रजानन्तः प्रतिगृह्णन्ति पूर्वे प्राणमङ्गेभ्यः पर्याचरन्तम् स्वर्गै्याधिपतिभर्गेवयाने रोषधेषु प्रजतिष्ठाधरीरैः येषामीजे पशुपनिः पशूनाञ्चतुष्पदामुदयघ्निपदाः पशु। पशु। पशु। निष्क्रीतो नै यज्ञम् भागमे तुलायस्पोषायजमानस्य सन्तो येन बभ्यमानमनुबध्यमाना अभ्ययेक्षन्तमनसा चक्षुषा च अग्र्यस्ताकुम् अग्रे प्रमोक्तु देवः प्रजापतिः प्रजया संविधानः यण्याः पशवो विश्वपा विलोपाः सन्तोपवधेकरोपाः वायुस्ताकुम् अग्रे प्रमोक्तु देवः प्रजापतिप्रजया संविधानः न प्रमुञ्चमानाभुवनश्चरेतो गातुम्भप्रयजमानाय देवाः उपाकृतपंसमानय्यदस्थाः जीवन् देवानामप्येदुपाथः नानाः प्राणो विजमानस्य पशुना निज्ञो देवेभिः सह देवयानः जीवन् देवानामप्येदुपाथः सत्याः सन्त विद्यमानस्य कामाः यः पशुर्मायुमकुतोरो वहवद्भिराहते अर्गेर्मादस्पादेन सोऽस्वान्मुञ्च त्वगुम्भसः शमिराद उपेतनयज्ञम् देवेऽभिरन्वितम् आशाः पशुम् प्रपुञ्चतबन्धाद्व्यपतिम् परि अजिग्यःपाचम् प्रभुमा त्वेतन्नमः पशुभ्यः पशुपधरे करोमि आरातीयम् तमधरम् कृणो मयम् विष्पस्तस्मिन् प्रतिमुञ्चाभिपाशम् ्यवाहगुंशतम् कर्तार मुतनिर्दियम् च अग्ने सदक्षः सदनुभूत्वादो जरस्व जातवेदो रवयागच्छ देवान्त्वम्भूताः प्रथमो बभूत घृतेन त्वम् तनवो वर्धय स्व स्वाहारदम् तु देवाः स्वाहा देवेभ्यो देवेभ्यः स्वाहा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 ्या वे पशवस्तैजागौ रुद्रोऽधिपवर्यदेवाभ्यामुपाकरो दिराभ्यामेवैदं प्रतिप्रोच्यालभत आत्मनो नास्का यद्वाभ्यामुपाकरो यद्दिवा व्यजमानः प्रदक्षित्या उपाकृत्य पञ्चजहो दिवानुभाः पशवः पशौ नेवावरुन्धे भृत्यवेशनीयते यत्पशुस्तै प्राणो यजमानस्य पशुनेत्याहव्यावृत्तेर्यत्पशुर्मायमगतेत्याहयथायजुरेवैतद्ववायामग्नेर्मेधोपक्राम जित्वा बुचेतधिरेहव्यवाहरिजुग्नेरेव मेधमवरुन्धे सोऽसु भक्त्वाय पुरस्ताः स्वाह गतयो उपरिष्टात् स्वाहा स्वाहा देव्यस्माहेत्यभित उपाञुः विषा नैव भयानाम् प्रेणाति यथा देवत यज्ञमुपचरत् ृष्टते पापीयान् भवति यो यथा देवतं न देवताभ्या वृष्टतेवदीयान् दे भवत्याव्याह व्येया सृजो वायव्यया वायव्यान्नेन्द्रिया सदो यथा देवतमेव यज्ञमुपजरति न देवताभ्या दे वृष्टतेवतीयान् ी ज्योतिषा सह यनध्विभाहुमन्तरिक्षेण ते सह युनद्विवाहुम् सहसौर्येण ते युलज्वितिस्रो विपदस्सौर्यस्यते व्यर्देवता गायत्रे छन्दो पागुषः पात्रमधि गोमो देवता द्रष्टुच्छन्दो धरि गामस्य पात्रमधेन्द्र देवता जगति छन्द इन्द्रवायुवाः पात्रमधिबृहस्पतिर्देवता नष्टुच्छन्दो मित्रावर्णयः पात्रमस्यश्विनो देवता पङ्क्तिच्छन्दोश्विनः पात्रमधिगोर्यो देवता बृहते छन्दः शुक्रस्य पात्रमधि छन्दः न्द्रमा देवता सतो गृहगे छन्दो मन्थिनः पात्रमधि विश्वे देवा देवतोष्णीः छन्द आक्रहणस्य पात्रमझेन्द्रो देवता चतुच्छन्द मुक्ताः पात्रमधि पृथिवे देवता विराच्छन्दो ध्रुवस्य पात्रमधि ष्टर्गो वा अध्वर्यजमानस्य पर्गः खलु वे पूर्वोष्टुः क्षीयत आसन्यामन्तात्माहितस्याश्चिभिषश्च इति पुरात्मन केवलध्वर्यः पुरस्तात् कर्म न ह्यतेषु वेशायत्वोपवेशायत्वागाय त्रया तृष्टभोज्याहा ृत्योर्मापादं प्राणापानौ माहादिष्टं देवता सुमाने च प्राणापानयोक्षन्ते येषां सोमसमृच्छदेशायत्वोपवेशाय करे भवत इयम् वा वरसन्तनपसो विगदा मन्तरे बृहद्या श्वा देवैनमन्तरेऽदिभूतम् वा वरधन्तरम् भविष्यद्बृहद्भूता चैवैनम् भविष्यतश्चान्तरेति परिमितम् वा वरधन्तरमधेनामपश्यते न ेव्यमवृन्दयद्भि हव्यम् सस्यत इन्द्रियमेव तद्वीर्य भ्रातुर्यस्य ले यश्च हो यातुम् सोऽज्ञतमयित्याहुस्वेवता वृन्दैरि यज्ञ कोमस्तो गुर्वेदयद्युःखस्यानुजिदाम् भवति भ्यास्तदेव स्वधायं मे तर्पयत प्राणं मे तर्पयथापाणं मे दर्पयत व्यानं मे तर्पयद लक्ष्यं मे तर्पयत श्रोत्रं तर्पयत तर्पयतमा घणामे मावितृषण्णोषगा वै होमस्तपि सोभिषःखरूपैनाज्ञः प्रजातोरे सेन्द्रस्वामो वैवृथम् भव मनसा सुजाता ऋतप्रजाता भगैर्द्वश्यामः देवेन विरुधस्संविधानानुमन्यसवनायस्वारे विषस्वारे देवतायवेमस्याभिषो यमानश्च प्रथमोऽंसन्दविधयेश्वर इन्द्रियम् वेर्यम् प्रजाम् प्रचोदयमानसन्तोभिमन्तः प्रजया त्याचिर मे मे तामाशास्तेन्द्रियस्य वैर्यस्य प्रजागेव सो नाम निर्घाताय द्रक्षश्च स्क्रन्दवशेऽनुमन्त्रयोमस्क्रपोर्वः सङ्गनन्दम् द्रक्षङ्गम्यनुसप्त होत्राः ै देवान् देवयसते नार्पयति मनुष्याम् मनुष्यैषेन देवयषस्येव देवेषु भवति मनुष्यैषसे मनुष्ये प्राचीनमात्रेणाग्रहानुकं सुग्रन्थेभागस्तानुपद्भिपदो देवानेव तद्देवयशतेनार्पयति मनुष्याणाम् मनुष्यैषेन देवयशस्त्येव देवेषु भवति मनुष्य वनेपहास्मान् वैश्वानवीना विश्वजम्भोः ग्रविनन्दः त्वायुष्पन्तस्तः भक्षा स्याम शेवा मरुत इन्द्रो अस्मानस्मिन् वितीरे सवनेन शक्यो आयुष्पन्तः प्रियमेषाम् वदन्तो भयम् देवानाजुं सुमतो स्याम निरन् करीशम् समनङ्केणामते नरे च मसमेयन्त हे सौघन्पना सुवरानधाना स्तुष्ट्यन्नो अभिवसी योनयन्तो आयतनवतेर्वा अन्या आहुदयो भूयन्ते नायतना अन्यायाधारवते स्ता आयतनवतेर्या सौम्यास्ता नायदना य विश्वस्मै भूतायान्वस्तृतेव सौमेदि सौम्यायेवं वेदाथ्यावानक्षिते उपजीवनीज भवतमुपजीवनीज भवति च एवम् वेदयप्रभागोयम् निर्जास्त्वय भत्यम् भालस्फोटकम् सुवेद्यकम् तम् वत्सरे राजस्वस्त्यम् पुत्रेभ्यो राजम् विभयत्सलाभाले कृष्णम् ब्रह्म यम् वसन्तम् निरभयत्सागच्छत्सो प्रभावा निरभागिनत्वा निरभागवित्यभ्य वेदङ्गिरस इमे सत्रमासदेतेषु वर्गम् लोकम् न प्रजानन्ति चेभ्ययनम् ब्राह्मणम् रोहितेषु वर्गम् लोकय्यन्तो येषाम् वशमस्तास्ते दास्यन्तेभ्योऽत्तेषु वर्गम् लोकै इेणक्यमिमानित्यब्रवेदस्य जगे शतत्यब्रवे दुर्वज्ञवास्तौ हीय वेदयस्माद्यना भ्रवेत्यं सवे म् मन्सिनः सर्गश्रावमनुभवत्ततो वेतश्च रुद्रः पशोभ्यमन्येतमेवम् विद्वा मन्सिनः सर्गश्रावम् जहो विन तत्र रुद्रः पशोदभिमन्यते वाचो भूया सञ्जुष्टो वाचस्पदघेते विवान् यद्वाचो मधुमत्तस्मिन् माथा स्वाहा मर्थयगायत्रेण रथन्तरम् बृहद्गायत्र वर्तनी यस्ते दर्शस्कन्धद्यस्ते अगुंसुर्बाभुच्युतो भिषणयोरुपस्था अग्भर्योर्बाभर्यस्ते महित्रा स्वाहा कृतमिन्द्रायतम् जहोमि यो द्रप्स अगुंसः पतितः पृथिव्याम् परिभापात् पुरोडाशा कणम्भात् धानासो मान्मन्थिन इन्द्रशुक्ता स्थाकृतमिन्द्रायतञ्जुहोमि यस्य द्रप्सो मधुमागङ्गिन्द्रियावाञ्छः कृतः पुनरप्येति पृथिव्याः पर्यन्तरिक्षात् साहाकृतमिन्द्रायतम् जुहोमि अध्वर्यर्वार्तिजाम् प्रथमो विद्यते न सोमो योक्तव्यत्याहुर्वाग्रेगा अग्रये सुजगादेवेभ्यो योमयिरसे प्राणान् ऋजुषुक्रयाचमेव तद्यज्ञमुखे युनस्तु वा एतद्यज्ञस्य क्रियते यद्ग्रहान् गृहेत्वानगृन्धर्पन् त्रिपरान् स्तुपदेव्यच्च पुनरेत्योपतिष्ठते यज्ञो वे ष्ठतु यज्ञमेव गर्विष्णात्मन्नान्तमः शर्म यच्छ सह हन्त्या प्रेधारामभस्तु उत्सङ्गप्रदे अक्षिरमित्याहयदेवानस्योपतिष्ठनाप्याययते अग्निनायवश्चोषमेव दिवे दिवे यशत वेलबत्म ओुम अग्नेश्मी यो निर्वत्सघा प्रम्यवागुधुरा प्रजाध्वपृथुद्रभाप्यासन्ते हृष्टा नमग्रिगरो अस्कमस्त केवल तन्नः स्तुलीपमथपोषयित्वष्टर्विरराणस्य स्व यतो वीरः कर्मण्यः सुदक्षो युक्तग्राभाजायते देवकामः शिवस्पष्टरिहागृहःपोषबुतत्मना यज्ञे यज्ञेन उदव श्रीशङ्करोपः सुभरोगयोधा सृष्टिवीरोयते देवकामः प्रजान्तष्टाविष्यदुनाभिमस्मे देवानामप्येदुपाथः प्रणो देव्या नो दिवः सकम् सरस्वदस्तनयो विश्वजतिषदः क्षेमहि प्रजामिषम् एते सरस्वपूर्मयो ते घृतस्तुतः एषान्ते सुम्नमीमहे य्रतम पशपोन सर्व य्रतमपतिषंताप युष्टिप्यपस्तक से हुएम युगुपन्नम बृहंत मृषभ मोषधीनाधे दरस्वंतम से हुएम श्रीवाज प्रसुष्ठु चेदेना स्पसा जुषस्व हव्यमाहुतम् प्रजान्तेन गुरुः सुषोमा बहुसूवरी तस्यै विश्वक्रिये हविस्विहोतन इन्द्रम् वो विश्वदस्परेन्द्रन्नरः वर्णाहरयः सुपर्णामिहोपसा नातिवमुत्पतन्ति ताववर्त्रादिपृथिवीभिते हिरण्यकेशो रजसोऽपिहायध्वनिर्वादयि वध्यजीमान् श्रीभ्राजा उषसो नवेदायशस्पतीरपस्य बो न सत्याः आदेशुपर्णा अभिनन्दगे वैरे कृष्णो नो नाम प्रभो यसीतम् श्वाभिन्नस्मयमानाभिराघात्पतन्तिमिहस्तनयन्त्यभ्रा आत्रेव विद्यम् निमातिवत्सन्न मातासि शक्ति ेषाम् वृष्टिरसद्ये पर्वतश्चिन्महि वृद्धोऽपि भार्य शिवश्चित्सानुदयज तस्वनेवः यत्क्रेण समरुतृष्टिमन्तामयव सध्यो वध्वे अभिक्रन्दस्तनगर्भमासामुदन्वदा परिचीयारथेन सुवर्षमिषिदन्यञ्चकम् समाभवन्तोद्पदानिपादाः धामा हयते अजरवना वृष्टन्ति चिक्वसः अर्ज्ञे भोरेण तव जादवे लो देवस्वधा वो मृदस्य धामा याश्चमायामायिनाम् विश्वमिन्वक्ते पूर्वे स्तन्दधुः पृष्ठबन्धो यो नो वृष्टिम् मरुतोपिण्दृष्ण अश्वस्य धाराः अर्वान्येतेनस्तनयत्रणे क्यपो निषिञ्जन्नः पिदानः पिण्वन्त्यपो मरुदः सुदानवप्पयो घृतवद्विदधेषुवः अत्र विनयन्ति वाजिनमुत्सम् दुहन्ति स्खनयन् नवक्षितम् सृतो मरुदस्तागुण्यत्तवृत्तिये विश्वे मरुतो जिनन्ति क्रोधा जिगर्दा गण्येव दुन्ना बेरुन्दिम् जानाभत्येव गजे नद्या वा पृथिबे मधु नासमक्षरपयष्पदे कृणुता ववोषधीः ओर्जञ्चरत्र सुमजिम् च बिम्बषयत्रा न मरुतस्य मधु उदत्यञ्चत्रा पौर्वभृगवक्षुचिमप्नवा नमदाहुवे अग्निगुंसमुद्रवाससम् आसवगुंसविदर् यथा भगस्येव भुजिगंहुवे अग्निगुंसमुद्रवाससम् उभयवादस्वनम् कविम् पर्जन्यक्रन्त्यगुंसः अग्निगुंसमुद्रवासधम् ओ